ष्टमः सर्गः तस्य चैवम् प्रभावस्य धर्मज्ञस्य महात्मनः सुतार्थम् तप्यमानस्य नासीद्वंशकरः सुतः चिन्तयानस्य तस्यैवम् बुद्धिरासीन्महात्मनः सुतार्थम् बाजिमेधेन किमर्थम् न यजाम्यहम् स निश्चिताम् मतिम् कृत्वा यष्टव्यमिति बुद्धिमान् मन्त्रिभिः सह धर्मात्मा सर्वैरपि कृतात्मभिः ततोऽब्रवीन् महातेजाः सुमन्त्रम् मन्त्रिसत्तमा शीघ्रमानय मे सर्वान् गुरोम्स्तान् स पुरोहितान् ततः सुमन्त्रत्वरितम् गत्वा त्वरितविक्रमः समानयत्सतान् सर्वान् समस्तान् वेद पारगान् सुयज्ञम् वामदेवम् च जाबालिमथ काश्यपम् पुरोहितम् वसिष्ठम् च ये द्विजोत्तमाः तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा इदम् धर्मार्थसहितम् श्लक्ष्मम् वचनमब्रवीत् मम लालप्यमानस्य सुतार्थम् नास्ति वै सुखम् तदर्थम् भयमेधेन यक्ष्यामीति मतिर्ममा तदहम् यष्टुमिच्छामि मिछा शास्त्रदृष्टेन कर्मणा कथम् प्राप्स्याम्यहम् कामम् बुद्धिरत्र विचिन्त्यताम् ततः साध्वितद्वाक्यम् ब्राह्मणाः प्रत्यपूजयन् वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ऊचुश्च परमप्रीताः सर्वे दशरथम् वचः संहाराः ते तुरङ्गश्च विमुच्यताम् सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयता प्राप्स्यसे पार्थिवा यस्यते सेनिप्रेता पार्थिव ये धाकी बुद्धिरय पुत्रागता ततस्तुष्टवद्राजा श्रुत्द्वी भाषित अमानब्रवीद्राज हर्षव्याकुलाोचन संभारा संभ्रियम गुणा वचना समर्थिष्ठिता शोपाध्याच्यता सरय्वाशोत्तरे तीरे यूमिर्धीयता शात वर्धनताम यहां यथा विधि शक्यमयेणा महीक्षितापराधो भव यु सतमे छिद्रम् हि मृगयन्ते स्म विद्वान् सो ब्रह्म राक्षसाः विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति तद्यथा विधिपूर्वम् मे क्रतुरेष समाप्यते तथा विधानम् क्रियताम् समर्थाः साधनेष्विति तथेति चाब्रुवन् सर्वे मन्त्रिणः प्रतिपूजिताः पार्थिवेन्द्रस्य तद्वाक्यम् यथा निशम्यते तथा द्विजास्ते धर्मज्ञावर्धयन्तो नृपोत्तमम् अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथा गतम् विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत् ऋत्विग्भिरुपसन्दिष्टो यथावत्कृतुराप्यताम् इत्युक्त्वा नृपशाद्दूलः सचिवान् समुपस्थितान् विसर्जयित्वा स्वम्वेश्म प्रविवेशमहामतिः ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयङ्गमाः उवाच दीक्षाम् विशतयक्ष्येऽहंसुतकारणात् तासाम् तेनातिकाम् तेन वचनेन सुमर्चसा मुखपद्मान्यशोभन्तपद्मानीवहिमात्यये इत्यार्षे श्रीमद् रामायणे आदिकाव्ये बालकाण्डे अष्टमः